अरवती अरव अरवत् आ अरव अरवत् अरव क्रीडा चेन्दामी पणं जनाम् मारोत्सवामदसाध इदं प्रवृत्तक सान्त्रेण चान्त्रमगसा शिशिरे कृदाशे प्रापूरयो मुरळिकां यमुना वनान्ते सम्मोचनापिदितस्परमण्टलाभिः सम्मूर्छयन्तमखिलं भुवनान्तरालं त्वत्प्रेणुनादमपकण्यविभो तरुण्यक दत्तादृशा कमविचित्त विमोकमापुः ताके गकृत्य कान्तो भसेवनं परा च सरोरुहाक्ष सर्वं विसृज्य मुरळीरवमो गीतास्ते कान्तारदेशमयं कान्तदनुः समेता काचिन्निजाङ्गपरिपोषणमादतानाका वेणुप्रणादमुपकण्यकृदात्तपोषाका त्वामागतां ननु तदैव विभोषिदाप्यक ता एव संररुचिरे तव लोचनाय हारं निदम्बपुवि क्वचिं च कण्ठपुविं देवसमागदा त्वां हरि त्वमात्मजगनस्य मुखुं ददप्यो व्यक्तं पपाशैव मुग्धमुखीं विशेषोत् क्वचिन् कुचे पुनरसञ्चितकञ्जुली का स्वामायया निरुपमप्रणयाधिभार राज्याभिषेकविदये कलशितरेव काञ्चन गृहात् किल निरे त्वमपारयञ्चक त्वामे वदेव कृतये सुदृढं विपाम्य देकं विदोय परसि सुकरोपमेका त्वामाभि स परमिमा ननोदय का परमात्मदया स्मरन्त्यो नार्यो गतः परमखं सगदिं क्षणेन त्वं त्वां प्रकाश परमात्मतनं कथञ्चित् चित्ते भग अमृतमश्रममश्वीय अभ्यागतापि रवितो वृजसुन्दरेभिखे मोक्षस्मिदात्रवदनकरुणाभलोके निसीमकान्ति जलधित्वमवेक्ष्यमाणो विश्वैकहृजहर मे पवने शरोकान् उभयादानां सुदृशां कुसुमायुधपानपादविवशानाम् अभिवाञ्छितं विधातो कृदमतिरभित जघद वाममिव गगनगदं मुनिभकं श्रावयितं जगदकुलवधोदमो धर्म्यं खलु ते वचनौ कर्मधुनो निर्मलस्य विश्वास्य आकण्यते णीं एष परं दीनाका मा करुणासिल् दो परित्यजेते अधिचिरं वेले बस्ताका तासां हृदितै लभितै करुणाकुलमानसो मुरारेतो ताभि समं प्रवृत्तो यमुना पुलिनेशो काममभिरतो चन्द्रकरस्य तलसदयं सुन्दर यमुनां तडान्तवीतेषो गोपीजनोत्तरीयै आपादित संसरोऽन्यषेदस्तु सुमधुरनन्मालपणैः करसङ्क्रहणैश्च चुम्बनोल्लासैः गाढालिङ्गनसङ्गै त्वं मङ्गना लोकमाकुले च मासो करणदिने यत् मासो हरणं प्रति श्रुतं तासां तदपि विभों रसविभस कान्दसुभ्रुवां हदताक कन्दलिदघर्मलेशा कुण्डमृधोस्मेरवक्त्रपातोज नन्दसु दत्वां त्रिजगत्सुन्दरो उपकोक्य नन्दिताबालाक पिरकेष्वङ्गारमयक शृङ्कारमयश्च शङ्कमेके त्वम् नितराम् अङ्कारमयः तत्र पुनः सङ्कमेबे क्षेत्रमितो राधां तुङ्गभयोदर साधो परीरम्बलो लोपात्मानम् आराधये भवन्तो समय सकलगतान् स्मृत्परानन्दरसात्मकेन त्वया समासाधितभोगलीलाः असि ममानन्दपरं प्रबन्नाका मकान्तमबोध मदमम्बोजाक्षक निलीयते सो मयि मय्यमायं प्रमापदे विश्वमनोभिरामक इति स्म सर्वा कलिताभिमानाका निरीक्ष गोविन्दतिरोहितो भोको धातापितां तावद हदे प्रियां हो भवदुं मुरारे भवान् पादाय गतो तया सह स्वैरविकारे तिरोहिते दिजादतापाक समं समेत कमलाय दक्षक वने वने त्वां परिमार्गयन्त्यक विषादमापगवन्नपारं हा चोदकाच्छम्बग निकार हा मल्लिके मालति बालवल्ल्यक किं वीक्षितो नो हृदयैकचोरक विख्याति तस्वत्प्रवणाभिलेपको निरीक्षितोऽयं सखि पङ्कजोक्षक पुरो ममे चाकुलमालपन्ते त्वां भावना सक्षुषिवे च काचित् तापं सखीनां द्विगुणे चकार त्वदात्मिक स्तां यमुना तटान्ते दवानुचक्र किल चेष्टितानि विचित्य भूयोऽपि तदैव मानात् त्वया विमुक्तां ददृचरातां तदसमं तां विपिने समन्दात् तमोवतारावधि मार्कयन्त्यक पुनर्मिश्रां यमुना तटान्ते भृषं विलेपुश्च जगोर् गुणांस्ते तथा व्यथा सङ्कुलमानसानां व्रजाङ्गनानां करुणैकसिन्तो जगत्रयीमोघनमोघनात्मा त्वं प्रादुरासे रयिमन्तकाशे सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्यतन्वय सहसा तदानीं किं किं न चक्रप्रमादादिभारात् satvam gatān pālayam adotensam तव विलोकनात् कृष्ण गोपि का जनाका प्रमद सङ्कुला कृष्ण पङ्कजे चना अमृत दया कृष्ण सम्प्लुता इव सिम दतां ददो कृष्ण त्वल्पोरो कदा का तदनुचना कृष्ण त्वलङ्कराम् भोजो सभदे कृष्ण निर्मि घनपयोधरे कृष्ण सन्निताय स पुलकसम्भृता कृष्ण दस्तु शेचिरों तव विभो परा कृष्ण कोमलं भुजो निज कलान्तरे कृष्ण पर्यवेशयत् गलसमुत्कदं कृष्ण प्राणमारुतो प्रतिनिरुन्धदेव कृष्ण हदे अभगदृपा कृष्ण कामिकामिनी तव मुकाम्बुजा कृष्ण मोकचन्दम् प्रतिगृहयत कृष्णभक्त्रपङ्कजे निदधदे कथा कृष्ण पूर्णकामदां मिगरुणो वने कृष्ण संविकाय माम् अभगदौषिका कृष्ण स्वामिक स्पृशेत् इति सरोषया कृष्ण पावती गया सजलोचनं कृष्ण वीक्षितो भवान् इति मुदा कुलये कृष्ण वल्लवी जनैः सममपाकतो कृष्ण यामोने तटे, तटें मृदकोचाम्बरै कृष्ण कल्पितासे वसृणवासुरे कृष्ण पर्यशोपता का गदिदा कृपा कृष्ण केपि सन्भतो हृदयो दया कृष्ण के चि दाश्रुते गदि चित्रशा कृष्ण मातृ चेष्वपि अभिहितो भवान् कृष्ण वल्लभे जनैः अयि कुमारिका कृष्ण नैव संख्यता कडिनता मये कृष्ण प्रेम करे मायदे चे कृष्ण वनोवृत्ति कृदमिदं मया कृष्ण इत्युच्यिवान् भवान् अयिनिक्षम्यतां कृष्ण जीववल्लपाका प्रियतमो जनो कृष्ण नेदृशोपम दधिक रम्यतां कृष्ण रम्यय मिनीषो अनपरोधमि ते कृष्ण आलपो विभो इदिके किराधिकं कृष्ण मोदमि दुरैके व्रजवधो जने कृष्ण साकमारमन् कलिदकौदु को कृष्ण रासकीलने गुरुपुरे पते कृष्ण पागे मां केशपाशत्र पिञ्जि कावे सचलन् मगर कुण्डलो हार जानवन मालिका ललितमङ्गर गगन सौरभ पिहित चलत्र काञ्चि काञ्चिदं उदं च दं सुमणि नो पोर् रासेळ्ळि परि पोषितं तव के रोपमी सकलयामके देवककृद कलिद कोलिकागोचमण्णले कमणे कुण्डले युवाे मपरेटल अन्धरासा कला सुन्दरी युगलम् इन्दिरा रमण संचर मञ्चोलाम् राय कुपाद वासुदेव तपा समानमिक रस केळि रस सौर मा दोरतोपे कल नारदा गा कलैय कोदका कुल वेषभूषण विलस पेचल समावृता नागतो युग पदा कदा वितिपेकतो वेणुनादकृद कानदानकलगानरागगति योजन लोपनीयमृदपादपादकृदं कालमेलन मनोकरो पाणि शङ्कणि च कङ्कणं शमुकुरं सलम्बिदकराम्बुजं श्रोणिबिम्बचलदम्बरं भजत रस केळिरसडम्बरो श्रद्धया विरचितानुगौनकृतं तारतारमधुरस्वरें नर्दने दललिताङ्गकारलुलिताङ्गकारमणिभूषणे सम्मधेन कृतपुष्पवर्षमलं वन्मिषत्तिमेषदाङ्कुलं चिन्मये तयि निलीयमानमिव सम्मुमोघसवधोकुलं स्विन्न सन्नदनुवल्लने तदनु कापि नाम पशुपाङ्गना am um. कान्तमंसमवलम्बदे स्म तव तान्ति भारमुलेक्षणा कासिता चलिदकुन्द वञ्चनेन तव सञ्चुचुम्बपुजं मञ्जितोरकोळकाङ्कुरा कापि कण्ठभुवि सन्निदायनिज तव पोकचन्वितरसामृताम् इन्दिराविकृति मन्दिरं भुवनसुन्दरं गिनटनान्तरे त्वामवाप्य ददो रङ्कनाखिमुन सम्मतोन्मददशान्तराम् गानमीशविरदं क्रमेण किल वाद्यमेल नमो भारतौ ब्रह्मसम्मदरसकुलासदसिं केवलं ननुतुरङ्कनाका नावि तन्नभि च नीविकां किमपि कुन्दलीमपि च कञ्चुलीम् ज्योतिषामभिकदम्बकं तिविलम्बितं किमपरं ब्रुवे मोदसें निभुवनं विलाप्य विकृतिं समाप्य च ततोऽपि भो केलिसम्प्रदितनर्मकनव कन्मले सशुभकात्मनां मन्मदासगनचेतसां पशुभयोषितां सुहृदशोधित सर्वथा मारवेर परमोत्सव कलि पेद परे लोलिता पिर कानने बिचवि सारि शीतलं किशोर मारुदमनोकरे सोन सौरभमये विलेसित विलासिनीशत विमोकनो कामिनी हृदिगयामिनी शुकलो कामनी यगनि देव भवान् पूर्ण सम्मदर सोर्णवं कमपि योगि गम्य मनो ब्रह्मशङ्करमुखान भीक पशुपाङ्कना सुभगमानय भक्तलोगकमनीयरूप कमनीय कृष्ण परिपाहि मां भक्तलोगकमनीयरूपं कमनीय कृष्ण परिपाहि मां भक्तलोगमनीयरूपं कमनीय कृष्ण परिपाहि मां सर्वत्र दशकम् नन्दने पाम्बु वि इति त्वयिरसङ्कुलां रमिदवल्लभे वल्लभाका कथापि पुरमम्बिका कमिदो रम्बिका का, का नने समेत्य भवदा समो निशिनिषेभ्य देव्या समा सुखं शोषभोरघ्रसीतं रजपमुघ्रनाग्रस्ततां समुल्मुखमतोल्मुकैके अभिगते भीतस्मिन् बलात् अमुं च देभवत्मके ज्ञपदिपायिपागीतिदैके तथा कलुबतो भवान् समुभगम्यभ स्पर्शतो पपौ सजनिजां तनुं समुभसाध्यवैद्योतरेम् सुदर्शनतरप्रभों धनुसुदर्शनात्योऽस्म्य को मुनिन् क्वचित पाकसंं तैक मां यदोन्पाकसां भवत्पदसमर्पणां तमलदां गदोऽस्मि ज्ञसो सुवन्निजपदं ययों व्रजपतं च कोपामुतां कथाभि खलु शीरिणां विगरति त्वयि श्रीजनै जकार धनो तान सकिल चङ्क छोटो भा अदिमनुमदमुक्त नारी जनारोजे त शिरो भणे दिनेषु स सुग्रजनैः सगवने शु लीलापर मनोभव मनोकरो रसितवेणुनाथामृता भवन्तमरे दृशां अमृतपारणा दायिनो विचिन्त्यके मोनालपन्ने विरकथा पिता भोजराजभृदकस्तद कश्चित् कष्टदुष्टपदृष्टिरष्टक निष्ठुराकृतिरपष्टो निनातक तिष्ठति चाकुरोद जगदे त्रिधिकारे मूर्तिमेष भृगतिं प्रददानक पङ्क्तिमाश परिकोण्यपचूनां छन्दसाम्निधिमवाप भवन्तो तुङ्गशङ्खमुगमाश्वपियन्तां सङ्गृह्यरपसादभियन्तो भद्ररूपमभिदैत्यमभद्रो मर्तयल् न मतय सुरलोको चित्र सत्य भगवन् वृषका धाव स्वस्ति राजाने वृषस्ते वर्तते च वृष चेतसि कोयाने मोदयित्यभिनतोऽसि सुरैस्वा औक्षकाणि परितापदतो रां वीक्षदामय मे कोक्षविपेदीय इत्तमातकसिते सगकोपैः खेतकस्त्वमवपादपुरेश सर्वत्र गोविन्दनामसङ्गकीर्तनं गोविन्द गोविन्द एवति ओण्डं दशकं यज्ञेषु सद्मेष्वपि नाकेशी केशीसभोजेतुरुष्टबन्धुको त्वं सिन्धुजावाप्य इति मत्मा सम्प्राप्तवान् सिन्धुजवाजिरूपकताम् एष कतो विरोक्षैः नादे समोकः भवद्भिलोकापदि कोपवाटीं प्रमाध्यपापं पुनरा त्वां दाक्षात्पिताङ्ग्रेस् तव दाक्षयशक शिक्षे भवशो विनामपादं मृगोपदाघातकथां निशम्य सेनाभिषक्यो तदिति भोघात् प्रवञ्चयन् अस्य कुराञ्चलं द्राग अमुं च सिक्षेपितदूरदूरं सम्मोर्छितोऽपि ह्यदि मूर्छितेन प्रोतो क्ष्मणां कादिदु मातृदस्त्वां तं वा कण्ठे प्रधतिश्च वाका दण्डं न्यतास्तस्य मुखे तताने तत्प्रत्यरोत्तत्त्वसनो गता सुखो सप्ते भवन्नव्ययमैक्यमाखाते आलम्बमात्रेण पशोऽसुराणां प्रसाधके नूर्नयिवाशमेते कृदे त्वया हर्षवशासु त्वां त्वष्टवेषवनमधेयं कं सायते चौरि सुधत्वमुक्तं तं तत्त्वदोत्कम् प्रहिरुत्यवाचा प्राप्तेन के शिक्षपणाभसने श्रीनारदेन त्वमभिष्टतो भोः कथापि कोपकाननान्ते निलायनक्रीडनलोलपं त्वां मयात्मज प्रापतुरन्तमायो व्योमाभितो व्योमचरोपरोते स चोरपालाम् इदवल्लवेष चोरा हितो को वशुषुण्शुं च गोगासुकृत्वा विदधे शिलाभिः त्वया च बुधमां परिमर्चदोबोत् एवं विदैच्छात् बुदके लिभेदैः आनन्दमोचां अदुलां व्रजस्य पदे पदे नोदनयन्नसीमां परात्मरूप पवनेशपायाकां दशकम् कंसन् अक्रे दूतनुपद कंसोधनारद किरां व्रजवासिनं त्वाम् आकर्ण्यतीर्णहृदय सहि कान्तिनेयम् आकूय कार्मुखमगच्छलदो भवन्तो आनेदुमे नमहि नो दयिना दशायण अक्रोरय शबवदङ्कृपर चिराय त्वद्दर्शनक्षममनो गच्छिति पालमि च तस्याज्ञयैव पुनरीक्षितु मोत्यदस्त्वाम् आनन्दपार अधिपोरितरं बपार सोऽयं रतेन सुकृते भवतो निवासं गच्छन् मनोरदकणां स्वीकार्यमाणात् आस्वादयन् मुकुरपाय भयेन दैवं सम्प्रार्थय पदि न किञ्चिदबिम्ब्यजानात् द्रक्ष्यामि स्पृच्छामि किं स्फिद विना मपरिष्वजेयं किं वक्षते सकल मां कनुवीक्षिदस्यात् नितं निनायस भवन्मयमे भोगक्रमादभि भवदं कृपोतां वृन्दावनं हरभिरञ्च सुराभिम् आनन्दमग्न इव लग्न इव प्रमोहे किं किं दशान्तरमव फनपङ्कजाक्ष पश्यन्नवन्तदभवद् विकृतिस्थलानि त्वां चोष्ववेष्ठदभवत् चरणाङ्कितेषो किं भ्रोमखे महुजनाङ्कि तथाभिजाताक एवं त्वभग्नितरला विरला परात्मन्ने सायं सकोप भवनानि भवत् चरित्रगेतामृत प्रसृतकर्णरसायनानि पश्यन् प्रमोदसरितेवखिल्यमानो सन्निति मन्वयासेत। भवनसन्निधिमन्वयासीत् तावत्तदर्श पशुतो कविलोकलोलं भक्तो तमागतिमिव प्रतिपालयन्तम् भूमन् भवन्तमयमग्रजवन्तमन्तः ब्रह्मानुभूतिरस सिन्धुमि भो त्वमन्तं सायन्तनाप्लव विशेषविक्तगात्रौ त्वनीलरुचि राम्बरलोपनीयो नादे प्रपञ्चत्रोषणचारुवंशो मन्तस्मिधार्त्रवदनौ स युमां ददर्श दो रात्रतान् समवरोग्य न मन्त मे मौलि मतोपको न हर्षान् निधानरीरा चलनयोगे पाणिं प्रकृत्य सफलोदगृहं निनेत नन्देन सागममिदां परमर्चयित्वा तं यादवं ददुधितां निशमय्य वार्तां कोपे श भोपतिनि ते च कथां निवेद्य नानाकथाभिरिकधेन निश मनिषीके चन्द्रगृहे किमुद चन्द्रभगा गृहेणो राधागृहे भवने किमु मैत्रविन्दे विलम्बदये प्रमादाभित्र गोविन्द नाम सङ्कीर्तनं गोविन्दोविमूनां दशकम् गोप कैः पलम्बु निशमयदवादयान वार्तां वृषमार्ता पशुपालपालिकास्ताका किमितं किमितं कथं निते माका समवेदा परितेभिधान्य कुर्वन् करुणानिधिरेशनन्दसोनुका कथमस्मा विसृचेतनताका पदन किमुदैवमेवमासीत् विदि तस्त्वद्गतम् पिले पोगो चरमा प्रगरे प्रदेण्टा मोनक सग मित्रे परितापपरं निदम्बिनीनां समयि शिव्यमुच सकायमेको अचिरा दुपयामि सन्निधिम्बो भविता साधुमय वसङ्कमशिखे अमृताम्बुनिधौ निमज्जयिषे त्रिधमिज्ञा स्वसिता वदोरकाशिखे सविषादपरं सयाञ्चमुच्चैखे आदिदूरं वनितापि च माणकं मृदु तत् क्षेपादयन् अभङ्गते सबलु क्रूरथेन निगतो भो अनसा बहुलेन वल्लभानां मनसा चानकथ वल्लभानां वनमार्तमृगम् विषण्ण वृक्ष समतितो यमुना तटे मया सिंहे नियमायनि मज्य वारिणे यक विभसो जनि किन्वितं विभोस्ते ननु चित्रं तवलोकनं समं दात् पुनर्शनिमज्य पुण्यशाले पुरुषं त्वां परमं भुजङ्गभोके हरिकम्बुगदाम्बुजैस्पुरथं सुरसिद्धौकपरितमालोके स ददा परमात्मसौख्यसिन्धो मिनिम प्रणव प्रकारे हे लो के पुन चलकवृदो यो त्वा किमु शीतलि मामगा जले यत् पुणकोसा विधिचोदितेन तेन अधिकर्षनिरद्धरेण सार्धा रथवासी पवनेश पायि मां त्वां सर्वत्र गोविन्दनामसङ्गीर्तनं गोविन्द गोविन्द एवतिनालां दशकं नगरप्रवेशं सम्प्राप्तो मधुरां दिनाटमिकमे तत्रान्तरस्मिन् वसन् पारामे विहिता चनस्सहि जनैके यातः पुरी मेक्षिधोः प्रापो राजपथं शिरश्रुतिधृतं व्यालोककौदोकल श्रेपंसोत्यदकण्यपुण्यनिकलैके आकृष्यमाणोनुकिं त्वत्पादत्युदि वत्सरागसुभका ल्मोर्तिवत्योषिदक सम्प्राप्ताभिलस वयोधररुचो लोला भवदृष्टिवत् आरण्यश्चतुरस्थलीवदयिते मन्दस्मिदं प्रौढिवद नैर्मल्यो लसिता कचौकरुचिवत् राजकलापाश्रिता का तासां आकलय न भाङ्गबलनैके मोदं प्रकर्षात् मोदं व्यालोलेशो जनेषु तत्र रजकं कञ्चित् पटिं माचयन् कस्ते दास्यते राजकीयवसनं या केति तेनोतिदक सत्यस्तस्य करेण शेषमकृताका सोऽभ्या भपुण्यां गतिं पूयो यकमेकमायतमतिं तोषेण वेशोचितं दास्वां सं स्वपदं निनेद सुकृतं को वेद जीवात्मना मालाभिस्तपकैस्तभैरपे पुनर्मालाकृदमानितो भक्तिं तेन वृतां किञ्चित् परां भक्तिं च ब् जलो च परि पुनदृष्टाङ्गराके दया दे साधुकिलाङ्करागमदता का तस्या महान्तं कृते चित्तस्तां रजता मतप्रदयता गात्रे भि तस्या स्फुटं गृङ्गल् मञ्जुकरेण तां मुदनयक तावन् जगसुन्दरीं नात्यन्तपा जनाका यत्किञ्चित्ततते स्म शत्यनुकुणं ताम्बोलमाल्यादिकौ कृणानकसमादि किञ्चन तथां मार्गे निबद्धाञ्जलिये न दृष्टं पदकायतोद्य विपुलां आर्तिं व्रजामि प्रभो येषां मिथिं विमुक्तयापि भगवल्ल आले पदाख्यातया दोराकादरया निरीक्षिदगतिके त्वं प्रविशो गोपुरो आघोषानुमे धमकाकर्षो ललत देवके भक्षो ज प्रगलत् पयोरसमिषात् तद्गीर्तिरन्तर्गता Up to the summer band, студ there is <laughs> no rhyme in the land. By दूरेण दत्तान्दरकः श्रमेद्भोषितमर्क्षितो वरदनुर्मा मे देवादात् पुरकः प्रकृणा समरो वयं किल समाक्राक्षेर मां चक्कम चक्रं सक्षपणोत्सभत्स्य पुरदक प्रारम्भदो जोपमक चभ्वं समगत् धने स्वा विपो देवानरोमाचयत् कंसस्यापे चे पदो पदोदीता कम् कोदण्ठ कण्ठ त्वये चेष्टै सोष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या तदग सम्पश्य पुनसम्पदं प्रविशरन् सायं गतो वाटिकां श्वेतां नासकं राधिकाभिरकजं केतं वदं प्रस्वपन् अवतार घटनात् पादेश संरक्षमा सर्वत्र गोविन्द नाम सङ्गीर्तनं गोविन्द गोविन्दुवति अर्शकम् भगवान् मल्युद्धं नन्दगोपेऽपिंसे सौधादिरूढे त्वमभि सकबलः सानुगचारुवेषो रङ्गत्वारं गतो कुपित कुवलया पीडना का वलेटो पाटो बेगे मार्ता दृतमि बष्ठुर कृत बुद्धे गे अम्भष्टस्य प्रणोतात् अधिगजवजुषां हस्तिना गृह्यमानत् केले मुक्तोद कोऽपि कुशकलशिरस्पर्धिनं कुम्भमस्य व्याक्यालीयता स्वुवे पुनर्निर्गतो वल्कुकाशी हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव ताभङ्गजेन्द्रं क्रीडन्नावाच्य भोमौ पुनरभिपदतक तस्य दन्दं सजेभो मूलादुन्नूय तन्नोलगमयितमखा मौतिकान्यात्ममित्रे प्रादा स्वाहारमे विहि ललितविरचितं राधिकायै दिशे घे कृं दन्दमंसे युतमतखलिना रङ्गमङ्गा विशन्तो त्वामङ्गल्याङ्गभङ्गेरभसकृतमनो लोचना वेक्षलोका अम्भो गण्योनुनन्दो नयि नयि पशुपालाङ्क नो नो यशोद नो नो धन्ये क्षणा स्मस्त्रिजगति वयमेते सर्वे शशंसुको पूर्णं ब्रह्मैव साक्षात् निरवधि परमानन्दसान्त्रप्रकाशं कोपेषुत्वं व्यलसेके न खलु बहुजनैके तावता वेतितो भोगो दृष्टा दत्वां तदेता प्रथममुपगते पुण्यकाले जनौग्गाका पूर्णानन्तविपाक सरसमभि जगुको तत्कृतानि स्मृतानि चानोरो मल्लभीरस्तदनुन्द्रपकिरा मुष्टिको मुष्टिशालिं त्वां रामं चापिते झटिति मितो मुष्टिपाता तिरोक्षो उत्पादापादनाकर्षण विविधरणा न्यासतां तत्र चेत्रं वृज प्राकेव मल्लप्रभुरगमोदयं पूरिशो भन्द मोक्षादिकष्टं कुमार सुललितवपुष मल्लवीरौ कठोरौ नत्रक्ष मो व्रजामक त्वरितमिति जने भाषमाणे तदानीं चानोरं तं करोत् ब्राह्मणविकलतसा पोतयामासितोऽ्यां पृष्ठोपोन्मुष्टिकोपे धृतमतकलिना नष्टेष्ठे तदा वे कंससंवाद्योज्ञलमधिरविदन्ने कार्यमाद्यान् पितृं स्थाने आकन्तं व्याप्तमूर्ते तव च समसे शद्दूरमुत्सप्रणाय पृष्टो दोष्टोक्तिभिडैव गिरिं मञ्च मञ्चं नोदञ्चते कट्कौ या बल्कदं सङ्क्रकमपि प्रग्रहे रग्रसेन सद्यो निष्पिष्टसन्धिं पुनरपतिमा पात्यतश्चो बृष्टात् त्वया पात्ये तदैव तदुपरिपतिता नाचिनां बोष्पवृष्टे किं किं ब्रोमस्तताने स ददमभिपिभिया त्वत्कदात्मा सभेजे सयोज्यं त्वदोत्ता परमपरमियं वासना कालनेमे तद्भ्रातॄन्नष्टबिष्टा त्रिधमतपितर सन्नमन्नुग्रसेनं कृत्वा राजानमुच्चैः यदुकुलमखिलं मोदय कामदानैः भक्तानाम् उत्तमं चोद्धवम् अमरकुरोको आप्तनीतिं सकायं लब्ध्वा तुष्टो न कर्यां पवनपुरपते वृन्दिम् सर्वत्र दशकं श्री भगवान् दक्षिणे पणिम चतुष्षष्टिमात्रैरकोभिः सर्वज्ञसा सकमुसलिना सर्वविद्या गृहे त्वा पुत्रं नष्टं यमनिलयनादाकृतं दक्षिणार्थं दत्वा तस्मै निजपुरमकाङ्का नहोदय पाञ्चजन्यो स्मृत्वा स्मृत्वा पशुपशुदृशकप्रेमभारप्रणुन्नाक् का, कारुण्येन त्वमभिवचक प्रागिणो रोद्धवं त्वं किञ्चामोष्मे परमसुहृदे भक्तवज्ञा यदा सां भक्तोत्रे का सकलभुवने दुर्लभं दर्शयिष्यन् त्वल्माकात्म्यप्रदेमविशुना गोकुलं प्राप्य सायं तत्त्वभिः बहुसरमयां स नन्दं यशोधां प्रादृष्ट्वा मणिमयरथ शङ्किता पङ्कजाक्षक श्रुत्वा प्राप्तो भवदनुचरं त्यक्तकार्यात्समे दृष्ट्वा चैन तदुपमलस्य सद्वेषभूषापि रामो स्मृत्वा स्मृत्वा तव विलसिता न्युच्चकैस्तानितानि श्रद्धालापाका कदमपि पुनर्गत्कदां वाचमोचु सौजन्यादीन् निजपरमिताम् अभ्यलं विस्मरङ्केमं किं तो पितृजनकृते प्रेक्षितो निर्दयेन का सौकान्तो नगरसुदृशाम् आकरें नाथपाया आश्लेष अमृतवपुषो हन्दते चुम्बनानां उन्मातानां गोगचवचसां विस्मरे कान्तकाभा प्रासक्रीडा लुलितललितो विश्लतकेशपाशो मन्दोद्भिन्नश्रमजलगणं लोपनीयं तदङ्गं कारुण्याप्ते सकृतपे समालिङ्ग ीतं दर्शये ते प्रेमोन्मोदात् भुवनमदन तत्प्रियास् त्वां विलेपगो एवं प्राये विवचवचनैके आकुला गोपिकास्ताका त्वस्सन्देशे प्रकृतिमनयत् सौदविज्ञानगद्भिः पूयस्तापि मोदितमधिके त्वन्मये भिन् धोभिः तत्तत्ता सरसमनयत् कानिचित् दासराणि तत्प्रोत्कोणे सहितमनिषा सर्वतो केककृज्ञो त्वतैव प्रसरति मि तत्सैव शोत् स्वफलपाक चेष्टाप्रायक त्वदनुकृदयक त्वन्मयं सत्वमेव दृष्ट्वा तत्र व्यमुगदधिको विस्मया दोयौ राधाया मे प्रियतममिता मत्प्रियैवं भ्रमेते के। त्वं किं मौना कलयसि सखे मौनिने मत्प्रिये भ एकाकेव प्रवदति सखे तत्प्रियो एतं वादैः परम यदया तत्प्रिया मोद्बलाक्षी एषा मेत्रा गणपकमनो केवलं कार्यपरात् विश्लेषेभिस्मरणदृढता सम्भवान् मास्तु केद ब्रह्मानन्ते मिलदिनचिरोत् सङ्गमो वां वियोग तुल्यो वा स्यात् इति तव किरा सोगरो निर्भ्यदास्ताका एवं भक्तिः सकलभुवने निक्षिता न श्रुता वा किं च श्लोघैः किमि गतपसा कोऽप्योन्नमोऽस्तु नित्यानन्दाकुलमुपगता गोकुलादुत्तवन्तौ कृष्वा कृष्णो गुरुपुरपते पाहि मा आमयोगात् गोपिका जीवनस्मरणं गोविन्द गोविन्दा <coughs>